नारदपुराणम् उत्तरार्धम् अध्यायम् 55 फैव् मोहिन्युवाच कस्मिन्काले द्विजश्रेष्ठ गन्तव्यम् पुरुषोत्तमे विधिना केन कर्तव्या पञ्चतीर्थ्यपिमानद च तीर्थस्य स्नाने दाने च यद्फलम् देवदा प्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् वसुरुवाच निराहारकुरुक्षेत्रे पादेनैकेन यस्तपेत जितेन्द्रियो जितक्रोधसप्तसंवत्सरायुतम् दृष्ट्वा सगृध्येष्टशुक्लद्वादश्याम् पुरुषोत्तमम् कृतोपवासप्राप्नोति तदोऽधिकतरं फलम् तस्मात् ज्येष्ठे तु सुभगे प्रयत्नेन सुसंयतैः स्वर्गलोके सुभिर्मर्त्यैर्द्रष्टव्यः पुरुषोत्तमः पञ्चतीर्थीं च विधिवत् कृत्वा ज्येष्ठे द्वादश्यां शुक्लपक्षस्य पश्येत्तं पुरुषोत्तमं ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमं ते विष्णुलोकमासाद्य नच्यवन्ते कदाचन तस्मात् ज्येष्ठे प्रयत्नेन गन्तव्यं विधिनन्दिनि कृत्वा सम्यक् पञ्चतीर्थीं द्रष्टव्यपुरुषोत्तमः सुदूरस्थोऽपि प्रीतात्मा कीर्तयेत् पुरुषोत्तमम् अहन्यहनिशुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् यात्राम् करोति कृष्णस्य श्रद्धया यः सर्वपापविनिर्मुखुतो विष्णु लोकम् व्रजे नरः चक्रम् दृष्ट्वा हरेर्दूरात् प्रासादोपरि संस्थितम् सहसामुच्यते पापान्नरो भक्त्या प्रणम्यतम् पञ्चतीर्थीविधिम् वक्ष्ये शृणुमोहिनि साम्प्रदम् यस्यां कृताया मनुजो माधवस्य प्रियो भवेद् मार्कण्डेयह्रदं गत्वा स्नात्वा चोदङ्मुखशुचिः निमज्जेत्तत्रीन्वारा निमं मन्द्रमुदीरयेद् संसारसागरेमग्निपाप ग्रस्तमचेतनं त्राहि मां भगनेत्रघ्नत्रिपुरारे नमोऽस्तु देव नमः शिवाय शान्ताय सर्वपापहराय स्नानं करोमि देवे शममनश्यदुपादकं नाभिमात्रे जले स्थित्वा विधिवद्वदारषीन् तिलोदकेन महिमान् पितृनन्यांश्च तर्पयेद् स्नात्वैवं च तथाचम्यततो गच्छेत् शिवालयं प्रविश्य देवतागारं कृत्वा तं त्रिप्रदक्षिणं मूलमन्त्रेण सम्पूज्य मार्कण्डे येषमादराद अघोरेण तु मन्त्रेण प्रणिपत्य क्षमापयेद त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण राखि मां महादेव नमोऽस्तु ते मार्कण्डेयः प्रदेत्वेवं स्नात्वा दृष्ट्वा च शङ्करं प्राप्नोति मानवः पापै सर्वैर्विनिर्मुक्तशिवलोकं स गच्छति तत्र भुक्त्वा वरान् भोगान्यावदाभूदसम्प्लवम् इह लोकं समासाद्य भवेद्विप्रो बहुश्रुतः शाङ्करं योगमासाद्य ततो मोक्षमवाप्नुयाद कल्पवृक्षम् तदो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् परया भक्रिया मन्द्रेणानेन तं वटम् ॐ नमो व्यक्तरूपाय मसदेन तपालिने महोदकोपविष्टाय न्यग्रोधाय नमोऽस्तु दे अवसस्त्वं सदा कल्पे हरेश्चायतने वटे न्यग्रोध हर मे पापम् कल्पवृक्ष नमोऽस्तु भक्त्या प्रदक्षिणम् कृत्वा गत्वा कल्पवडम् नरः सख सोच्छदि पापौखम् जीर्णाम् त्वच मिवोरगः चायाम् तस्य समाक्रम्य कल्पवृक्षस्य मोहिनि ब्रह्महत्याम् नरो जह्यात् दृष्ट्वा कृष्णाङ्गसम्भूते ब्रह्मतेजोमयं परं न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च वैधसि राजसूयाश्वमेधाभ्यां फलप्राप्नोति चाधिकं तथा कुलं समुद्धृत्य विष्णुलोकं स वैनदेयं नमस्कृत्य कृष्णस्य पुरतः सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेद दृष्ट्वा वडं वैनतेयं यः पश्येत् पुरुषोत्तमं सङ्कर्षणं सुभद्रां च सयादिपरमां गतिम् प्रविश्यायतनं विष्णोः कृत्वा तं त्रिप्रदक्षिणं सङ्कर्षणं सुभद्रां भक्त्या पूज्यप्रसादयेद नमस्ते हलधृङ्नाम्ने नमस्ते मुसलायुध नमस्ते रेवकान्त नमस्ते भक्तवत्सल नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर प्रलंबारे नमस्ते स्तोत्रीहि मां एवम् प्रसाद्य चानन्दमजेयम् त्रिदशार्चितम् कैलास शिखराकारम् चन्द्रकान्तवराननम् देवं देवम् महाबलं हलधरं। हलधरम् कुण्डलैकविभूषितम् रौहिणेयं नरोभक्त्या लभेदभिमदम् फलम् सर्वपापैर्विनिर्मुक्तो विष्णुलोकम् च गच्छति आभूतसम्प्लवम् यावद्भुक्त्वा तत्र बुधः पुण्यक्षयादिहा गत्यप्रवरो योगिनाम् कुले ब्राह्मणप्रवरो भूत्वा सर्वशस्त्रार्थपारगः ज्ञानम् तत्र समासाध्यमुक्तिम् प्राप्नोति दुर्लभाम् एवमभ्यर्च्य हलिनम् तथ कृष्णम् विचक्षणः द्वादशाक्षरमन्त्रेण पूजयेत्सुसमाहितः द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमं पूजयन्ति सदा धीरास्ते मोक्षम् प्राप्नुवन्ति वै न गदां गतिं सुरा योगिनो नैव सोमपाः यां गतिं यां दि विधीजे तत्पराः तस्मात् तेनैव मन्द्रेण भक्त्या कृष्णम् जगद्गुरुं सम्पूज्य गन्धपुष्पाद्यैः प्रणीपत्य प्रसादयेद जय कृष्ण जगन्नाथ जय सर्वापनाशन जय चूरकेशिघ्न जय कंस निषूदन जय पद्म पलाशाक्ष जय चक्रगदाधर जय नीलाम्बुधश्याम जय सर्वसुखप्रदा जय देव जगत जगत्पूज्य जय संसारनाशन जय लोकपदेनाथ जय वाञ्छा फलप्रद संसारसागरे घोरे निस्सारे दुःखफेनिले क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे नानारोगौर्मिकलिरे मोहार्त सुदुस्तरे निमग्नोऽहं सुरश्रेष्ठत्राहिमां पुरुषोत्तमा एवं प्रसाद्य देवेशं वरदं भक्तिवत्सलं सर्वपापहरं देवं सर्वकामफलप्रदं पीनां सं कृष्णं पद्मपत्रोयते क्षणं महोरस्कं पीतवस्त्रं शुभाननम् शङ्खचक्रगदापाणिम् मुकुडाङ्गज भूषणम् सर्वलक्षण संयुक्तम् वनमाला विभूषितम् दृष्ट्वा नरोञ्जलिम् कृत्वा दण्डवत् प्रणिपत्यज अश्वमेधसहस्राणाम् फलम् प्राप्नोति मोहोकिनि यत्फलम् सर्वतीर्थेष्वस्नाने दाने प्रकीर्तितम् नरस्तद्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च यद्फलं सर्ववेदेषु सर्वयज्ञेषु यद्फलं तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च यद्फलं ब्रह्मचर्येण सम्यक् चीर्णेन कीर्तितं नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च गार्हस्त्येन यथोक्तेन यद्फलं समुदाहृदम् नरस्तत्फलमाप्नोदि दृष्ट्वा चीर्णेन कीर्तितं यद्फलं वनवास्येन वानप्रस्थस्य कीर्तितम् नरस्तद्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितं संन्यासेन यथोक्तेन यद्भलं समुदाहृतं नरस्तद्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितं किं चात्र बहुनोक्तेन माहात्म्यं तस्य भामिनि दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् पापैर्विमुक्तशुद्धात्मा कल्पकोटिसमुद्भवैः श्रिया परमया युक्त सर्वैः समुदिदो गुणैः सर्वकामसमृद्धेन विमानेन सुवर्चस त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् तद् कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्च दुर्भुजः च्युतस्तस्माभिखायातो विप्राणाम् प्रवरे कुले सर्वज्ञः सर्ववेदी च जा जायते गतमत्सरः स्वधर्मनिरतशान्तो दादाभूतहितेरथः आसाद्य वैष्णवम् ज्ञानम् तदो मुक्तिमवाप्नुयाद तदस्सम्पूज्यमन्त्रेण सुभद्राम् भक्तवत्सलाम् प्रसादये च विधिज्ये प्रणिपत्य कृताञ्जलिः नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे राशि माम् पद्मपत्राक्षि कात्यायनि नमोस्तुते। ते एवं देवीं जगद्धात्रीं जगद्धितां बलदेवस्य भगिनीं सुभद्रां वरदां शिवां कामगेन विमानेन नरो विष्णुपुरं व्रजेद आभूतसम्प्लवं यावत् क्रीडित्वा तत्र देववद इह मानुषदाम् प्राप्तो ब्राह्मणो वेदविद्भवेद प्राप्य योगम् हरेस्तत्र मोक्षम् च लभदे ध्रुवम् निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः प्रणम्यायदने पश्चाद्व्रजेत्तत्र समाहितः इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः अन्तर्भावे पितं नत्वा ततो विष्णुपुरं व्रजेत सर्वदेवमयो देवो हिरण्यकशिपूर्धरः यत्रास्ते नित्यदा देवी सिंहार्धकृतविग्रहः भक्त्या दृष्ट्वा तु तं देवम् प्रणम्य नृतरिं शुभे मुच्यते पादकैर्मर्त्यः समस्तैर्नात्र संशयः नरसिंहस्य ये भक्त्या भवन्ति भूविमानवाः मानवाः न तेषां दुष्कृतं किञ्चित्फलं च स्याद्य दीप्सितं सर्वप्रयत्नेन नरसिंहं समाश्रयेत् धर्मार्थकाममोक्षाणाम् फलम् यस्मात् प्रयच्छति तस्मात्तम् ब्रह्मदनये भक्त्या सम्पूजयेत् सदा मृगराजमहावीर्यम् सर्वकामफलप्रदम् ब्राह्मणाः क्षत्रिया वैश्यास्त्रीय शूद्रान्त्यजादयः सम्पूज्यतु सुरश्रेष्ठं भक्ता सिंहवपुर्धरम् मुच्यन्ते चाशु बाहुखाज्जन्मकोडिसमुद्भवाद सम्पूज्यतं सुरश्रेष्ठं प्राप्नुवं त्यभिवाञ्चितं देवत्वमरेशत्वं धनेशत्वं च भामिनि यक्षविद्याधरत्वं च तधान्यच्च प्रयच्छति शृणुष्व नरसिंहस्य प्रभावम् विधिनन्दिनि अचितस्य प्रमेयस्य भुक्तिमुक्तिप्रदस्य च कश्चनतिगुणान्वक्तुम् समस्तांस्तस्य सुव्रते सिंहार्थकृतदेहस्य प्रवक्ष्यामि समासदः या कश्चि सिद्ध यात्रूय दुषा प्रसाद तर्वा सिद्य संशय स्वर्गे मत च दिवितोये सुरे नगे प्रसाद तय दव्या हदा गति असाध्यं तय दे से सचराचरे नरसिंहस्य सुभगे सदा भक्तानुकम्पिना विधानम् तस्य वक्ष्यामि भक्त्रानामुपकारकम् येन प्रसीदते च सौ सिंहार्थ कृतविग्रहः यत्तत्त्वम् तस्य देवस्य तदज्ञानम् सुरासुरैः शाकयावकमूलैस्तु फलपिण्यासकृप पयोक्ष्येण वा वर्तदे वर्तरे साधकेश्वर का स कौपीनवासाच्नुक्त जितेद्रििय अजने देशे नदी संगम पर्वदे, सिद्धक्षेत्रे चोशरेच, चरसींहाश्रमे तथा प्रतिष्ठाप्य स्वयं चापि पूजां कृत्वा विधानतः उपपादकवान् देवि महापादकवानपि मुक्तो भवेत् पादकेभ्यः साधको नात्रसंशयः कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् गन्धपुष्पादिभिर्धूपैः प्रणम्य शिरसा प्रभुं कर्पूरचन्दनाकृतानि जातिपुष्पाणि मस्तके प्रदद्यान्नरसिंहस्य ततः प्रजायते भगवान् सर्वकार्येषु न क्वचित् प्रतिदूयते न शक्तास्तं किं पुनर्दानवालोके सिद्धगन्धर्वमानुषाः विद्याधरां यक्षगणात्स किन्नरमहोरगाः ते सर्वे प्रलयं यान्ति दिव्या दिव्याग्नितेजसा दिव्या सकृजक्त्वाग्निशिखया हन्यात् सर्वानुपद्रवान् त्रिजक्त्वा कवचं दिव्यं संर े दैत्यदानवाद भूतात्पिशाचा द्राक्षोभ्यो ये चान्ये परिपन्थिनः त्रिर्जप्तम् कपचम् दिव्यमभेद्यम् च सुरासुरैः यो जनद्वादशांस्तस्तु देवो रक्षति सर्वदा नरसिंहो तदो गत्वा बिलद्वारमुपोष्य रजनत्रयं पलाश काष्ठै प्रज्वाल्य भगवज्जातवेदसं पालाशसमिधं तत्र जुहुयात्रिमधुप्लुदं द्वे युदे कञ्चनयने शकडश्चैव साधकः तद कवल्ली विवरम् प्रकडं जायते क्षणात् तदो विशेत्तु निःशङ्कवल्ली विवरम् बुधः गच्छ दशकडस्यादतमो मोहश्च नश्यति राजमार्गस्तु विस्तीर्णो दृश्यते तत्र मोहिनि नरसिंहं स्मरं तत्र पादालं विशदे तदा गत्वा तत्र जे चुद्धो नरसिंहं तमव्ययं तदस्त्रीणां सहस्राणि वीणा चामरकर्मणां निर्गं दि पुरा चैव स्वागतं धावदन्ति प्रवेशयन्ति तं हस्ते गृहीत्वा साधकेश्वरं ततो रसायनं दिव्यं पाययन्ति सुलोचने पीतमात्रे दिव्यदेहोजायदे सुमहाबलः क्रीडदे दिव्यकन्याभिर्यवदाभूतसम्प्लवम् भिन्नदेहो वासुदेवं नीयते नात्र संशयः यदा न रोजयन्ध्येतस्ततो निर्गच्छदे पुनः पट्टं शूलं च खड्गम् च रोचनाञ्च मणिम् तथा रसं रसायनम् चैव पादुकाञ्जनमेव च कृष्णाञ्जलिं च सुभगे गुटिकाम् च मनःशिलाम् मुण्डलाम् चाक्षसूत्रम् च षष्ठीं सञ्जीवनीं तथा सिद्धाम् विद्याम् च शास्त्राणि गृहीत्वा साधकोत्तमः ज्वलद्वग्निस्फुलिङ्गोर्मिवेष्टितम् त्रिदश्यम् हृदि सकृन्यस्तम् देहे बृजिनं वृजिनम् जन्मकोटिकम् विषन्यस्तम् विषम् हन्यात्कुष्टम् हन्यात्तनौ स्थितम् सुदेहभ्रूणहत्यादि कृत्वा दिव्येन शुध्यति महाग्रह गृहीतेषु ज्वलमानं विचिन्तयेद रुदन्तिं वैतदशीघ्रं नश्येयुर्दारुणाग्रहाः बालानां कण्डके बद्ध्वा रक्षा भवति नित्यशः गण्डपिण्डककृत्यानां नाशनं गुरुदे ध्रुवम् ्याधिकादेशमुद्भिश्च घृदम् क्षीरेण भोभयेद स्त्रिसन्ध्यम् असमेकम् तु सर्वोगान्विनाशयेद असाध्यम् न श्य पश्यामि तत्त्वस्य सचराचरे याम् कामयदे सिद्धिम् ताम् ताम् पूजयित्वा मृगाधिपं मृत्ति सप्त वमीक शमशने चुष्पथे रक्तचंदन सीश्रा गवां क्षीरेण लेपेद सिंह से प्रतिमा प्रमाणन षडंगुला भूर्जपत्रे विशेषेण लिखेद्रोचनया तथा नरसिंहस्य कण्ठे तु चैव समन्त्रवद जपे सङ्ख्याविहीनं तु पूजयित्वा जलाशये यावन्मन्त्रं तु जपदि सप्ताहं संयतेन्द्रियः जलाकीर्णमुहूर्तेन जायते सर्वमेदिनी अधवा शुद्धवृक्षाग्रे नरसिंहम् तु पूजयेद् यत्त्वा चाष्ठशतम् तत्त्वम् वर्षम् तद्विनिवारयेद् तमेव पिञ्चके बद्ध्वा भ्रामयेत्साधकोत्तमः महावादो मुहूर्तेन आगच्छेन्नात्र संशयः पुनश्च वारयन्सिक्ताम् सप्तजप्तेन वारिणा अथ तां प्रतिमान् द्वारे निखनेद्यस्य साधकः गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तितः तस्माद्वै ब्रह्मतनये पूजयेद्भक्तितः सदा मृगराजमहावीर्यं सर्वकामफलप्रदम् दृष्ट्वा स्तुत्वा नमस्कृत्य सम्पूज्य नृहरिम् शुभे प्राप्नुवन्ति नराराज्यम् स्वर्गं मोक्षम् च दुर्लभम् नरसिंहम् नरो धृष्ट्वा लभेदभिमदम् फलम् विमुक्तसर्वपापेभ्यो विष्णुलोकम् च गच्छति सकृ दृष्ट्वा तु तम् देवम् मुच्यते पादकैः सर्वैः कायवा चित्तसम्भवैः सङ्ग्रामे सङ्गडे दुर्गे सौख्याख्रादिपीडिते कान्दारे प्राणसन्देहे विषवह्निजलेषु च राजादिभिषु सङ्ग्रामे ग्रहरोगादिपीडिते स्मृत्वा तं यो हि पुरुषसङ्कटैर्विप्रमुच्यते सूर्योदये यथा नाशम् तमोऽभ्येदि महत्तरम् तथा सन्दर्शने तस्य विनाश्यम् यान्त्युपद्रवाः गुटिकाम् जनपादाले पादले परसायनम् नरसिंहे प्रसन्ने दुः प्राप्नोत्यन्यांश्च वाञ्छितान् यान्यान् कामानविध्यायन् भजेद नृकरिं नरः तां तान् कामानवाप्नोति नरो नास्त्यत्र संशयः इति श्रीबृहन्नरदीयपुराणोत्तरभागे मोहिनी वसुसंवादे पुरुषोत्तममाहात्म्ये पञ्च पंचा, पञ्चाशत्तमोऽध्यायः ओ